नारदपुराणम् उत्तरार्थम् अध्यायम् सेवेण्टी वन् अथ पुष्करमाहात्म्यम् मोहिन्युवाच श्रुतं प्रभासमाहात्म्यम् द्विजश्रेष्ठादिपुण्यदम् अधुना श्रोतुमिच्छामि माहात्म्यम् पुष्करोद्भवं यदाद्यं सर्वतीर्थानां पवित्रम् पापनाशनम् मत्पिदुर्यज्ञसदनम् तन्ममाख्याहि विस्तराद वसुरुवाच शृणुभद्रे प्रवक्ष्यामि नराणां कामदं सदा पुण्यम् पुष्करमाहात्म्यं बहुतीर्थसमन्वितम् विष्णुना सखिता देव यत्रेन्द्राद्या व्यवस्थिताः गजवक्त्रकुमारश्च रैवतश्च दिवाकरैः शिवदूदि तथा देवी क्षेत्रक्षेमङ्गरी सदा ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठदि निरुद्यमी अष्टाङ्गयोगजं पुण्यं स लभेन्नात्र संशयः नाथपरतरं किञ्चित् क्षेत्रमस्तीह भूतले तस्मात् सर्वप्रयत्नेन सेव्यमेतन्नरोत्तमैः ब्राह्मणाः क्षत्रिया वैश्याशूद्रा वा क्षेत्रवासिनः सर्वात्मना ब्रह्मभक्ता भूतानुग्रहकारिणः ते यान्ति ब्रह्मणो लोकं यत्र गच्छन्ति योगिनः यो नरसर्वतीर्थेषु यद्फलं लभते प्लुतः तत्सर्वं स लभेन्मर्त्योज्येष्ट कुण्ठे सकृत्प्लुतः पुष्करारण्यमासाद्य यत्र प्राची सरस्वती मतिस्मृतिर्दया प्रज्ञा मेधा बुद्धि तत्र तं तज्जलं ये विप्रपश्यन्ति तटे स्थिताः तेऽपि अश्वमेधयज्ञस्य प्राप्य व्रचन्ति कम् त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रश्रवणानि च ज्येष्ठमध्यकनिष्ठानि त्रीणि तत्र सरांसि च तत्र अन्यत्सु सरसो योजने तत्र स्नात्वा विधानेन गाञ्जदत्त्वा पयस्विनीम् विप्राय वेदविदुषे व्रजेद् ब्रह्मक्षयम् नरः कोडितीर्थं तथात्रास्ति यत्र ऋषिकोटिरागता तत्र स्नात्वा द्विजान् प्राच्यमुच्यते सर्वपादकैः अगत्याश्रममासाद्य स्नात्वा सम्पूज्य कुम्भजम् दीर्घायुर्जायते भोगी देहान्ते स्वर्गतिम् लभेत् सप्तर्षीणाम् तथा प्राप्य तत्राश्रममनन्यधीः स्नात्वा सम्पूज्य भक्त्याल्लभते तत्सलोकताम् मनू नामाश्रमे स्नात्वा पूजामाप्नोति सर्वतः गङ्गाविनिर्गमे स्नात्वा गङ्गास्नानफलं लभेत ज्येष्ठे दुपुष्करे स्नात्वा गाञ्च दत्त्वा द्विजातये भोक्त्वेह भोगानखिलान् ब्रह्मलोके महीयते मध्यमे पुष्करे स्नात्वा ब्राह्मणाय महीं ददद विष्णुलोकमवाप्नोति विमानवरमास्थितः कनिष्ठेदु नरस्नात्वा दत्त्वा विप्राय काञ्चनं सर्वान् कामानवाप्यान् दे रुद्रलोके महीयते तदो विष्णुपदे स्नात्वा दत्त्वा किञ्चित् द्विजादये लभदे सकलं कामान् विष्णोश्चैव प्रसादतः नागतीर्थे तदस्नात्वा नागानभ्यर्च्य मानवाः दत्वा दानं द्विजादिभ्य मोददे त्रिदिवेयुगं पिशाच तीर्थके स्नात्वा विप्रायभोजनं न कदाचित् शाचत्वम् प्राप्नोति त्रिविधम् व्रजेद् शिव दूदि हृदि तत्र शम्भुम् समर्च्यज विप्रन् सम्भोज्य मिष्ठान्नम् स्वगलोके महियते। आकाशपुष्करे स्नात्वा मन्त्रयो गफलप्रदे नरो मुक्तिमवाप्नोति सत्यं सत्यम् तवोदितम् आपोखिष्ठादिभिर्मन्त्रैराकाशस्थम् विचिन्त्य स्नायाद्यपुष्करारण्ये सलभे चाश्वतं पदम् आज्ञेयं दूयता वृक्षं कार्तिक्यां भवति क्वचिद् महदि स तिथिस्तत्र स्नानमाकाशपुष्करे याम्यर्क्षयोगे कार्तिक्यां मध्यमे स्नानकृन्नरः तद्भलं समवाप्नोति प्रजापत्यर्क्षयुक्तायां कार्तिक्यां दुःखनिष्ठके स्नातस्तद्बलमाप्नोति यद्विहत्पुष्करोद्भवम् नन्दाचार्के गुरौ सोमे याम्ये वह्नौ विध्वौ क्रमाद यदा नभ पुष्करोद्धं तदा स्यात् फलम् विशापायां यदा भानुकृतिकायां च चन्द्रमाः सदा नभ पुष्कराख्ये गे योगे स्नादो दिवं व्रजेद अन्तरिक्षावतीर्णेऽस्मिन् तीर्थे पैदामहे शुभे कुर्वन्ति ये नरास्नानम् तेषां लोका महोदयाः पञ्च स्नो दः सरस्वत्याम् पुष्करारण्यके सति कृतानि मुनिभिः सिद्धायस्तीर्थान्यायतनानि च तेषु सर्वेषु विज्ञेया धर्महेदुःसरस्वती हाडकाक्षिधिगौरीणां दानं तेषु महाफलं धान्यान्यपि तिलांश्चापि योत्र दद्या द्विजोत्तमे स नरो लभते भोगानिहामुत्रपराङ्गदिं सङ्गे गङ्गा सरस्वत्योर्यत्वा पूजयेद्विजान् स प्राप्नोदि गतिं चाग्र्यां भुक्त्वा भोगानि हेप्सिदान् अभियोगाभिधायां विधानेन पितृ न यदि वै दिवं तथा सौभाग्यकूपे दुः स्नात्वा सन्तर्प्य पूर्वजान् सद्गतिं लभते मर्त्यो सौभाग्यं चादुलम्भुवि मर्यादपर्वतौ द्वौ तु स्नात्वा स्पृष्ट्वा समर्च्य च वाञ्छितल्लभदे लोकान् साङ्गयात्राफलम् तथा अजगन्धम् शिवम् प्राप्य समभ्यर्च्य विधानद लभने वाञ्छितान् कामानिहलोके परत्र च सरसो दक्षिणे भागे सावित्रीं पर्वते पर्वतोपरि संस्थितां यत् समभ्यहर्चेत् सोऽपि वेदस्य तत्त्वविद वाराहस्य नृसिंहस्य ब्रह्मणस्य हरेस्तथा शिवस्य चापि सूर्यस्य सोमस्य च गुहस्य च पर्वत्याज्वलनस्यापि तत्र तीर्थानि मोहिनि पृथक्तेषु महाभागे नरस्नात्वा समाहितः दानं च दत्त्वा विप्रेभ्यो नभदे गतिमुत्तमं दुर्लभं स्नानं पुष्करे दुर्लभं तपः पुष्करे दुर्लभे दानं पुष्करे दुर्लभा स्थितिः शतयो जनसंस्तोऽभिः नरः पुष्करं चिन्तयेद्भक्त्या स तत्स्नानफलं लभेद मङ्गणाद्यास्तपः सिद्धाः सेवन्ते यत्र तत्र गतो भाग्यात् कामितां सिद्धिमाप्नुयात् पुष्करेऽधिजनामापि येनोक्तं विधिनन्दिनि पुष्करस्नानजं पुण्यं लभेत्सोऽपि न संशयः यशृणोदि नरोभ्या माहात्म्यं पुष्करस्य सोऽपि स्नानफलं प्राप्य मोददे दिवि देववद इति श्रीबृहन्नदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुष्करमाहात्म्यं नामैक सप्ततितमोऽध्यायः हा इति पुष्करमाहात्म्यं समाप्तम् ओम्